ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 58 एय् जैमिनिरुवाच एवं ब्रुवाणं वरुणं विलोक्यपतितं भुवि संजहारपुनर्धीमानास्त्रं भृगुकुलोद्वहः सं रामो वरुणं पुरतः स्थिरं विलोक्य विगतक्रोधस्तमुवाच हसन्निव गोकर्णनिलया पूर्वमिमे मां मुनिपुङ्गवाह समायादा महेन्द्राद्रौ निवसं तं सरित्पते तोये मे दिनीं पूर्वं कनद्भिस्सगरात्मजैः अधो निपातितं क्षेत्रं गोकर्णमृषिसेवितम् उपलब्धुमिमे भूयः क्षेत्रं तद्भववल्लभम् आथावन्मामुपागम्य मुनयस्तीर्थवासिनः येषामर्थे ततः सोऽहं महेन्द्रादचलोत्तमाद भवन्तमागधो द्रष्टुं सहैभिर्मुनिपुङ्गवैः तस्मान्मदर्थे सलिलं समुत्सार्यात्मनो भवान् धातुमर्हति तत्क्षेत्रमेषां तोये पूर्ववद जैमिनिरुवाच इति तस्य वच श्रुत्वा वरुणो यादसाम्पतिः निरूप्य मनसा राममिद भूयोऽब्रवीद्वचः वरुण उवाच न शक्यमुत्सारयितुं मदम्भक् केनचित् भवेद् तथाहि मे वरो दत्तः पुराणेन विरिञ्चिना सोऽहं त्वत्तेजसेदारीं विहाय सहजां धृतिं कादरं समुपायादो वशतां तव भार्गव येषामर्थे विशेषेण भवदा परिचोदितः कथं न कुर्यां कर्मेदमहं क्षत्रकुलान्तक तस्माद् यावत् प्रमाणं मे भवान् सङ्कल्पयिष्यति तावत् सङ्कारयिष्यामि भूमौ सलिलमात्मनः इति तस्य वच श्रुत्वा स सायकं यथा गतं प्रचिक्षेप धनुर्निर्भिद्यभार्गवः ततो निरूप्य सीमानं दर्शयानो महीपदे स्रुवं जग्राहमधिमान् कामो जलाशये प्रसन्नचेतसम्भ्रामं गदरोषमधात्मनि अन्तर्हिते सरिन्नाथे रामः मुदङ्मुखः वेगेन चिक्षेप लवणार्णवे क्षिप्तत्वेन समुद्रेदु दिशमुत्तरपश्चिमां गत्वा स्रुवोपद्राजन्योजनानां शतद्वयं तीर्थं शूर्पारकं नाम सर्वपाप विमोचनम् विश्रुतं यत्रिलोकेषु तीरे नदनदीपदेः तीर्थं तदन्तरीकृत्य स्रुवो रामकराच्युतः निपपादमहाराजसूचयन् रामविक्रमं यत्राभूद्रामसृष्टाया भुवो निष्ठाधपार्थिव तीर्थं शूर्पारकं तत्तु श्रीमल्लोकपरिश्रुतम् उत्सारयित्वा सलिलं समुद्रस्तावदात्मनः अदेष्टदपसृत्योर्वीं दत्वा रामाय पार्थिव अनधिक्रान्तमर्यादो यथा कालं बृहद्वहः समयं स्वापयामास तस्यैवानुमते भुवि विज्ञाय पूर्वसीमान्तां भुवमभ्युत्ससर्जः व्यस्मयन्तसुराः सर्वे दृष्ट्वा रामस्य विक्रमं नगरग्रामसीमान् किञ्चित् सह्येदु पूर्ववत्तस्मिन्नब्धेरपसृदेऽम्भसि तत्र दैवात्तथास्थानान्निम्नत्वात् स प्रलक्ष्यतु तदस्तेषां भृगुश्रेष्ठो मुनीनां भाविदात्मनां यथाभिलषितं स्थानं प्रददौ प्रीतिपूर्वकम् तदस्ते मुनयः सर्वे हर्षेण महतान्विताः कृतकृत्या भृशं राममाशिषा समपूजयन् अथैतैरभ्यनुज्ञादो ययौ प्राप्तमनोरथः गदे मुनिवरे रामे देशात्तस्मान्निजाश्रमं संभूय मुनयः सर्वे प्रजग्मुस्थिरमं बुद्धेः परिचङ्क्रम्यतां भूमिं यत्नेन महतान्विताः ददृश्यु सर्वदोराजन्ह्यर्मवान्दस्थितां महीं नित्यत्वात् सर्वदेवानामधिष्ठानतया तथा कादमब्धौ निपतितं नष्टतोऽयं चिरोषितम् अपि रुद्रप्रभावेमप्रायान्नात्यन्तविप्लवं तत्तेयनिःसृतं क्षेत्रमभूत्पूर्ववदेव हि ये दद्धि देवः सामर्थ्यमचिन्त्यं नृपसत्तमा एवं रामेण जलधे वसुंधरा दक्षिणोत्तरतो राजनयो जनानां चतुशतं नाधिक्रामधिसोद्यापि सीमानं पयसां निधिः कृतं रामेण महदा न तु सज्जं महद्धनुः एवं प्रभावो रामोऽसौ सगरस् महीपति ये खंडो भारद निपति सहस्रंधु वर्धित महोदति भूत पुनः सृष्टि योजना षत सगर से सुतस्मर्धि मकराल तत यदत्ते सम्य महतचरिद मै मया रामस्य कार्तवीर्यस्य सागरस्य महीपते है ये ब्रह्मांडे महापुराणे वायुप्रोक्त मध्यम भागे तृतीय उपादादपादेष्टपञ्चशतमोऽध्यायः ओम्